महावाक्यरत्नावले सप्तमं प्रकरणम् अथ सार्धान्तिकमनवाक्यानि एकोनचत्वारिंशत् अहमन्नम् अहमन्नम् अहमन्नम् अहमन्नम् अहमन्नादोहम् अन्नादोऽनादः अहं मनुरभवं यश्चर्यश्च अहं मे वेदं सर्वमसानि यथाफेनतरङ्गादिसमुद्रादुत्थितं समुद्रे लीयते तद्वज्जगन्मय्यनुलीयते अनात्मदृष्टैरविवेकनिद्रामहम् अहम् अस्वप्नं प्रगतिं गतोऽहम् स्वरूपसूर्येऽभ्युदिते स्फुटोक्तैर्गुरोर्महावाक्यपदैः प्रबुद्धः प्राणाश्चलन्तु तद्धर्मैः कामैर्वाहन्यतां मदः ुद्धिपूर्णस्य मम दुःखं कथं भवेत् नमे मे नमे न मुक्तिर नमे मुक्तिर्न मे शास्त्रं न मे गुरुः मायामातृविकासत्वान् मायातेतोऽहमद्वयः आत्मानम् मञ्जसा वेद् मे क्वाप्यज्ञानं पलायितम् कर्तृत्वमपि मे नष्टं कर्तव्यं वापि न क्वचित् ब्राह्मण्यं कुलगोत्रे च नामसौन्दर्यजातयः सर्वे स्थूलदेहगता एते स्थूलाद्भिन्नस्य मे न हि क्षुत्पिपाशान्ध्यबाधिर्यकामक्रोधादयोऽखिलाः लिङ्गदेहगता ह्येते यलिङ्गस्य न विद्यते जडत्वप्रियमोदत्वधर्माः कारणदेहगाः न सन्ति मम नित्यस्य निर्विकारस्वरूपिणः चिद्रूपत्वान्न मेजाड्यं सत्यत्वान्नानृतं मम आनन्दत्वान्न मे दुःखम् अज्ञानाद्भाति सत्यवत् नाहं देहो जन्ममृत्यु कुतो मेह नाहं प्राणः क्षुत्पिपाशे कुतो मे नाहं चेतशोकमोहौ कुतो मे नाहं कर्ता बन्धमोक्षौ कुतो आनन्दमन्तर्निजमाश्रयन्तम् आशापिभ्याचेमवमानयन्तम् आलोकयन्तम् जगदिन्द्रजालम् आपत्कथम् मा प्रविशेदसङ्गम् देवार्चनस्नानुशौच भिक्षादौ वर्ततां वपुः तारं जपतु वाक् तद्वत् पठ त्वां विष्णुं ध्याये तव तीर्त्यद्वा ब्रह्मानन्दे विलीयताम् साक्ष्यहं किञ्चिदप्यत्र न कुर्वेनापि कारये ज्ञातं ज्ञातव्यमधुना दृष्टं द्रष्टव्यमद्भुतम् विश्रान्तोऽस्मि चिरं श्रान्तश्चन्मात्रान्नास्ति किञ्चन नभूतं भूतं न भविष्यञ्च चिन्तयामि कदाचन न स्तौमि न च स्निन्दामे यात्मनोऽन्यन्न हि क्वचित् अलेपकोऽहम् सुपूर्णात्मतिरेकेण जगज्जीवेश्वरादयः न सन्ति नास्ति माया च तेभ्यश्चाहं विलक्षणः किं करोमि क्व गच्छामि किं गृह्णामि त्यजामि किम् यन्मया पूरितम् विश्वम् इति सार्धान्तिकमनवाक्यान्येकोनचत्वारिंशत् सप्तमं प्रकरणम् समाप्तम्